मुद्गलपुराणं खण्डं 6 विकटचरितम् अध्यायं 21 मयूरे यात्रार्थप्रवेशफलादिवर्णनम् श्रीगणेशाय नमः भृश्युण्ड्युवाच विकर्मकारिणां क्षेत्रे कथयिष्यामि च अधुना यथा दण्डस्वहस्तैश्च क्रियते भैरवैर्महान् मयूरे क्षत्रियः कश्चिद्वासं कृत्वा स्थितोऽभवद गत्वा वनान्तरे लोकान् हत्वा द्रव्यं समग्रहीद कुटुम्बपोषणे सकृतशिष्णोदरपरायणः विविधं पापं क्षेत्रे मायूरसंज्ञे परियृ्य य भक्तापह जातिक सोभिम नकार भगिनी मे दृष्ट्वा दृष्टि कदा मध्य नह्वल हठा महेशाना महेशान बुभुजे कामनायु चौरादीनिचकारापि ब्रह्महत्यां तथा कलः गोस्त्रीवधादिकं दुष्टः किं वदामि विशेषतः गणेशं न कुपूजासौ कदाचिदमरान् परान् यात्रां नैव चकारापि पावनिष्ठो ममारः भैरवास्तं समागृह्य बद्ध्वा ताड्यनराधमम् निन्यः स्वस्थानगम् ते दु नग्नम् भैरवनायकम् क्षत्रियोऽधमः क्रूरम् दृष्ट्वा भैरवनायकम् आहा कृत्वा पपातासौ मूर्च्छितो धरणीतले सावधानं तथ कृत्वा मायया नग्नभैरवः मृदिमूर्च्छाविहीनं च दुष्टं चकार सर्वपः तदस्तं गृह्यदूदास्ते भैरवस्य महात्मनः अग्निकुण्ठेषु संक्षिप्य दाहयामासुरञ्जस सहस्रे तेदं गतेषु वर्षेषु क्रोधसंयुधः अग्निचक्रे समाक्षिप्य भ्रामयामासुरञ्जस हाहाकार रवैर्युक्तो बभ्रामाग्नौ न राधमः न ममारनमूर्च्छांसो लभद्भैरवमायया तदसहस्रवर्षान्ते हैमकुण्ठे समाक्षिपन् भैरवास्तं महादुष्टं शीतैश्चक्रुः प्रपीडितं तदसहस्रवर्षान्दे शिलायां स्थाप्यमुद्गरैः चूर्णयामासुरुग्रैस्तं कलं कण्टकसंयुतैः एवं गतानि वर्षाणि सहस्रम् देवसत्तमाः तदो याम्यां ददुस्तस्मै यादनां दारुणां परां रुरुर्जन्तुभिरादष्टो रौरवे भून्नराधमः स सहस्रं वर्षकाणि महोग्रैर्वह्निसन्निभैः ततस्तैलकडाहेषु सन्तप्तेषु चदम्भडाः शिक्षिपुर्दारूणां सोऽपि वेदनां बुभुजे परां तदसहस्रवर्षान्ते तप्तवालुभिरेवदम् आच्छाद्यतापयामासो भैरवाः क्षत्रियाधमं सहस्रं तत्र वर्षाणि बुभुजे दुःखमुल्बणं तदः स पपाद पिशाच योन्यां दुःखसंयुधः क्षुधादृशा समायुक्तः सदाशीतोष्णभावकैः बभ्रामक्षेत्रमध्ये स पीडितो यत्र तत्र च तत्र तं देवदूताश्च दृष्ट्वा स्वनिकटे स्थितं तदा दण्डादिभिः सर्वे ताडयामासुरोजसा वेदशास्त्रध्वनिं श्रुत्वा होमधूमादिकं तथा पपालदुःखसंयुक्तो मन्त्रशास्त्रभयात् कदा त्रीणि वर्षसहस्राणि भुक्त्वा दुःखं ततः परं भैरवैश्च समानीदो ननाम नाम नग्नभैरवं शुद्धस्तेन समानीदो गणेशस्यैव मन्दिरे गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूवः एवं पापप्रचारान् सन्दण्ड्य ब्रह्ममयं पुनः चक्रुः क्षेत्रे मृदत्वात् कथयितुं शक्यते न वै अन्यं पापकृधकर्मदाहकं विधिमुत्तमम् कथयामि समासेन शृणुध्वं शिवमुख्यकाः ब्राह्मण काश्यपः कश्चित् मयूरे संस्थितो भवद चौर्यमद्यादिकं सोऽपि चकार नित्यमादराद परस्त्रीलम्पडः सोऽपि शिश्नोदर परो भवद ब्रह्महस्यां द्रव्यलोभाच्चकारकाश्यपोधमः ज्ञात्वा राज्ञा द्विजस्यैवाहृत्य सर्वं पुनर्द्विजं बद्ध्वा क्षेत्राद् बहिश्चक्रे नरैर्धर्मपरायणैः तदोद्विजो द्विजो विलप्यैव कृत्वा मयूरं तत्र लोकैः सद्वारयात्रा परो भवद द्वारयात्रारथं दृष्ट्वा लोकास्तं मे निरे पुनः ब्राह्मणं श्रद्धया युक्ता वस्त्रान्नं च ददुःपरं चतुर्द्वारमयीं यात्रां चकार ब्राह्मणाधमः पञ्चम्यां पारणं चक्रे षष्ठ्यां सर्पेण दंशिदः मृदं मयूरक्षेत्रे तं विषोग्रेण प्रपीडितं संगृह्य भैरवा नग्नभैरवमाययुः यादनागारकं देवो दर्शयामास भीदिदं तस्मै पुनश्च विघ्नेशं दर्शयामास देवपाः दृष्ट्वा गणपतिं सोऽ बिब्रह्मभूतो बभूवः क्षेत्रे कृतं महत्पापं द्वाराणां यात्रयागतम् अन्यच्च शृणुतप्राज्ञामयूरे चरितं भवं पुराकल्पे समासेन कथयामि महेश्वराः दण्डकारण्यदेशे दुब्राह्मणोत्रिकुलोद्भवः बाल्याभ्य दुर्बुपापकर्मदना देवासुप्रतीको द्रव्यलो बभुव चौर्यद्रव्यम जोगाज चा सप्तपुरी जग्म चतुर्वर्णजनसोऽपि तेषां मध्ये जगामः द्रव्यलोभीजनानां च चा चौर्यद्रव्यं समग्रहीद एवं बहुधनस्तत्र जातोसौ ब्राह्मणाधमः कृत्वा सप्तपुरीणां ते यात्रां पुनः स्वदेशं तैः समायुक्तः सोऽपि स्वगृहमायययौ तदस्त्रीपुत्रकान् स्वस्य मण्डयामासभूषणैः चचारतीर्थगो भूत्वा कदाचिच्चौर्यकारणाद्विजः पौराणिकं दृष्ट्वा पुराणकथनेरदं चौर्यार्थं तत्र पापात्मा जनमध्ये समास्थितः तदो मयूरक्षेत्रस्य माहात्म्यं स्कान्तसम्भवं शुश्राव सुप्रतीकश्च जनै सर्वै महेश्वराः मयूरक्षेत्रमाहात्म्यश्रवणेन तुरात्मनः द्विजस्य बुद्धिभेदो वै बभूवे स तु तत्र चकारापि विचारं मनसे परम् अहो मया द्विजे नैव किं कृतं पापमुल्बणं विषादिनाहदा लोका ब्राह्मणाद्या मया बहु तीर्थेषु चौर्यहत्यादि पापं तु प्रकृतं मया काश्यां प्रदक्षिणायां तु परम् पापं कृतमपारं वै कागदिर्मे भविष्यति मद्विना ब्राह्मणः कश्चिदीदृशो न कदा यो ब्रह्मनिरत सर्वो ब्राह्मणस्तेन कथ्यते एकान्तकं तदः पौराणिकं गत्वा द्विजाधमः उवाच तं प्रणम्यादौ कृत्वा करपुटं वचः सुप्रतीक उवाच सर्वतीर्थेषु क्षेत्रेषु पापम् दुष्टः वज्रलेपं तदेवापि कुत्रनाशं नाशं पौराणिक उवाच सप्तबुल्यादिक्षेत्रेषु नरः पापं समाचरेद तन्मयूरक्षेत्र एव प्रवेशेन लयं चतुर्विधानि क्षेत्राणि सर्वत्र ब्रह्मगोलके धर्मार्थकाममोक्षाणां प्रदानि सेवतां द्विज पञ्चमं ब्रह्मभूताख्यं मयूरं नात्र संशयः तत्र पापं कृतं चेद्वै वज्रलेपतमं भवेद् एवं तस्य वच श्रुत्वा तं प्रणम्य समाययौ गृहं धाराधितं गृह्य मयूरेशं जगामः यथाविधि चकारासौ यात्रां क्षेत्रसमुद्भवां द्वारादिचिह्निदां सोऽपि निवासमटरोत्तदः देवागारं सश्रि भजत् गणनायकं अन्दे पाप विहीन सब ब्रह्मभूद नाना ये नाजनस्तिता महेश्वराः पतिता पापीनावेशे जा जादा मयूरके अधुना कथयिष चरित्रं यत्पुरातनं श्रुत्वा संशयहीनास्तं मयूरेशं भजन्ति वै वैश्योद्धर्मध्वजो नाम द्रव्यलोभी बभूवः विषेणपितरं सोपि मारयामास लोभतः नानाद्विजादिकान् सोऽपि वन्द्यपूज्यान् विषेण मारयामास नित्यं द्रव्यार्थमुल्बणः स कदाचिद्वणिग्भिश्च क्रियविक्रयकारणाद् जगामदण्डकारण्ये जनैः सह महाकलः तत्र माके महायात्रां जग्मुर्लोकाविशेषतः मयूरेशं तदत्सोऽपि तैर्जगाम सुहर्षिदः द्रव्यलोभार्थमानन्दात्पुरं मायूरमाययौ तत्र प्रवेशमात्रेण तं च पापानि तत्यजुः बहिः स्थितानि पश्यन्ति यदा सा तदा पुनः प्रवेशं वै करिष्यामो नराधमं तत्र दैवप्रसङ्गेन न पापानि चकारः यथा विधि तथा यात्रां चक्रे हर्षसमन्वितः पुनर्मानवसङ्घैः स निर्जगाममहेश्वरः मयूरेशम् परित्यज्य मार्गसंस्थो बभूवः तं दृष्ट्वा तस्य पापानि शुद्धं यात्राविधानदः स्प्रष्टुम् तान्यसमर्थानि भूवो देवसत्तमाः ततः सर्वाणि विचारं चक्रुरादराद अहो यः क्षेत्रगो भूत्वा पापानि कुरुते सदा तथास्माभिर्मयूरेयं गत्वा पापं करिष्यति ज्ञातं ते नमः विघ्नाय पीडितो नैव निश्चितम् अधुना शुद्धरूपोऽयं बहिः सदा समागतः अधः पुण्यानि नित्यं तु करिष्यति विशेषतः वयं कुत्र गमिष्यामो विघ्नं कुरुत सर्वतः यना पापकर्मापि कुरु ते पापमल्पकं किञ्चित् पापयुधं वैश्यम् प्रविश्यामो विशेषदः ततो महाकसंयुक्तं करिष्यामो नसंशयः येवं एवं विचार्य पापानि पापिनां हृदयेषु च प्रविश्यतान् समानाय्य वैश्यं तं समपीडयन् अकस्माच्चौरमुख्यैश्च द्रव्यं तस्य समाहृतम् तेनादिदुःखयुक्तो हि धर्मध्वजो बभूवः तदः पापेषु दुग्बुद्धिश्चकारक पुनर्मदिं एतस्मिन्नन्तरे तत्र ब्राह्मणं स ददर्शः तं प्रणम्य स्ववृत्तान्तं कथयामास विस्तराद श्रुत्वा दं पुनरप्याहब्राह्मणः सर्वमार्गविद त्वया कृतानि पापानि तानि त्वाम् पीडयन्ति वै अतस्त्वम् सत्वरो भूत्वा मयूरेशं समाश्रय स्वजनय् पुत्रधारादिसमानाय्य महामदे तत्रस्थो धर्मसंयुक्तो दुःखहीनो भविष्यसि तच्छ्रुक्त्वा सप्रणम्यादौ तम् मयूरेश कम् द्विजम् जगामत्वरया युक्तस्ततः सर्वान् समानयद मयूरे वैश्यवृत्या च धर्मयुक्तः समास्थितः धर्मध्वजश्चकारासौ गणेशभजनं सदा पापानि भोगहीनानि बहिर्मृस्थितान्यपि धर्मध्वजश्च देवेशा ब्रह्मै वान्दे बभूवः क्षेत्रं नरेण मायूरं न त्याज्यं तु कदाचन पीडितेन महादोश्रैर्मदं तदपि तद्वरम् अन्यत्र राज्यभोगस्थोधवा स्वर्गस्थ एव सः मयूरेणीचजाधिस्ता किञ्चदेन समो नहि आयासेन विहीनत्वाद्भ्रमभूतो भवेन्नरः मयूरे तेन किं तुल्यं भवेद्ब्रह्माण्डमण्डले इदं यशृणुयाद्देवा श्रावयेद्वा पठेन्नरः पापकेन स्वभावेन धर्मयुक्तो भविष्यति ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटजरिदे मयूरे यात्रार्थप्रवेशफलादिवर्णनं नामैक विंशतितमोऽध्यायः ओम्